न जानामि पद्यं न जानामि गद्यं चिरेका षडास्याहृद्योतते मे मुखानिसन्ते गिरशापि चित्रम् मयूरादिरूढं महाभाग्यगूढं मनोहार सदा पर्वते राजते तेऽधिगूढ इति वाूड स देवो मूरे मे सदाशोऽस्तु महाबोधितीरे महापापचोरे मुनीदानुकूले सुगन्धाख्यशैले गुहायां वसन्तं स्ववासालसन्त जना ते हरन्तं श्रया मो गुहन्तम् स्वर्णये नृणकामरोहे सुमस्तोमसञ्झन्न के मञ्जुलेत्यन्तशोदे मन मनोहारि लावण्यपीयूषपूर्णे मनशट्पदो मे भवत्येषा मोदं स्कन्दते पादपद्मे सुवर्णाम्भदेव्याम्बरे भासमानं क्वणत्किङ्किणी मेखला शोभमानं रसध्येव न्दते दीप्यमाणा पुलिन्देशकन्यागना भोगतुङ्ग सनालिङ्गदा स्वलीला धृताण्डा निरस्ते भषुण्डा द्विषत्काल दण्ड हरे द्रारिषण्डा जलत्राण सदा ते प्रचण्डा श्रये बाहुदण्डा सदा शारदा शङ्गृगङ्गा यदि सुसमुद्यन्त एव समन्तः सदा पूर्णभि श्च हीनास्तदा त्वन्मुखानां हृदय सानि साम्यम् सुहृन्मन्दहासै सहंसानि चञ्चल्कटाक्षावली बृङ्गसङ्गोज्ज्वलानि सुदास्यन्दिम्बाधराणे शसूनो तवालोक एषण्मुखाम्बोरुहा सुकर्नादीर्घेष्वजस्त प्रयास्य द्वादशस्वीक्षणेषु महिषस्कटाक्षः सकृत्पादितश्चेखवेते दयाशीली सुरङ्गोद्धवो मे श्रीवेतिषठा जपन्मन्त्रमीशो मुदा स्तकेयूरहाराभिराम शरत्कुण्डलश्रील सद्गण्डभा यत्यादराजङ्करे मातुरङ्गत्पत्यतादम् श्रयन्तम् कुमारम् हराश्लिष्टात्रं फले बालम् कुमारेश सूनो गुहस्कन्द सेनापते शस्तिपाणि मयूराधिरूढ पुलिन्द ेष्टे कपोद्गारे वक्रे भयोद्गम्पि गात्रे प्रयाणोन्मुखे मय्यराग्रे तदानि धृतं मे दयाणो भवाग्रे रूत्वम् कृतान्तस्य दूतेषु चण्डेषु कोपातः छिन्दि भिन्दीति मान्तश्चयु मयूरं मा समारोह्य माभैरिति त्वम् प्रसाद्य प्रभो प्रार्थयेकवारम् न वक्तुम् क्षमोऽहम् तदानीम् कृपाथे न कार्यान्तकाले मनागप्युपेक्ष सहस्राण्ड भोक्ता त्वया शूर नाम हतस्तारक सिंहवक्त्रश्च दैत्य ममान्त हं सुस्प्रभोगि करोमि क्वयामि स्वहम् सर्वदा दुःखवारा वसन् भवादीनबन्धुस्त्वदन्यम् भयाचे भवद्भक्तिरोदम् सदा ग्लप्रबाधम् ममाधिं द्रुतं नाशयो मासु ष्टक्षया शस्त्र मे हस्वमार गुल्मादिरोगामहात कृशाचाश्च सर्वे भवत्पस्त्रभूतिं विलोक्यक्षणतारकादे द्रवन्ते स्कन्द मूर्तिशौ स्कन्द गीर्ते मुखे मे पवित्रं सदा तच्चरित्रं कले तस्य कृत्यम् शेष मुनीनामुताहो नृणाभस्ति भाज अभीष्टस्प्रदा सन्ति सर्वस्त्र नृणामस्त्यजानामभि स्वखदाने गुहादेव मन्य न जाने न जाने बन्धुवर्गपशुव नरो बाधनारे गृहे ये मदीय यजन्तो नमन्तस्तुवन्तो भवन्तम् स्मरन्तश्चले संतु सर्वे कुमार कुमारगापक्षिणो दंशकाय च दुष्टम् तथा व्याधयो बाधकायै मदंगे शक्ति तीक्ष्णाग्रविन्ना सुदूरे विनश्यन्तु ते चूणितक्रौ च शैला च मित्री पिता च देवसेनाधिनाथ अहम् चातिबालो भवालोकतात् क्षमस्वापराधम् समस्तम् केकिने शस्तये चापितुभ्यम् नमश्चागतुभ्यम् नमः नमः सिन्धवे सिन्धुदेशाय तुभ्यम् पुनस्कन्दमूर्ते नमस्ते नमोऽस्तु जयानन्दभूमन् जया पारधामन् जया मोघती ते जयानन्दमूर्ते जया I will sing them perhaps so. filtrate when hocore floats the river density that cliffs come from the river density.